अथर्वेदे षष्ठाष्टके सप्तमोऽध्यायः ॐ इन्द्राय सामगाय तभिप्राय बृहते बृहत् धर्मकृते एविपश्चिते एपनस्य वे त्वमिन्द्राभिभोरसि त्वम् सूर्यमलोचयः विश्वकर्मा विश्वते विभ्राजं ज्योतिषाश्वा अरगच्छोरोचरम् दिवः देवास्त इन्द्रसख्याय येमिरे ऐन्द्रनो गधिप्रियः सत्रादितगो हो ह्यः गिरिर्न विश्वदस्पृथः पतिर्दिवः सत्यसोमपा उभे बभूतरोदसि इन्द्रासि सुन्दतो वृथः पतिर्दिवः त्वम् पुरामसे अन्तादस्योर्मनोर्वृधः अधाहे अथा हे इन्द्रगिर्वण उभत्वा कामान्महः स सृज्महे उदे वयन्त उदभिः वारणत्वा आयव्याभिर्वर्धन् दिवे युञ्जन्ति हरे एशिरस्य राथयोरौरथ उरुयुगे इन्द्रवाहा आवचोयुजा त्वन्न इन्द्राभरङ्गोजो नृम्णम् शतक्रतो विचर्षणे आ वीरम् वृतनाशहम् त्वम् हिनः पितावसोऽर्थम् माता शतक्रतो अधा आते आ ते सुन्नमीहीमहे त्वाम् शुष्मिन्पुरुहूतवा जयन्तमुपब्रुवे शतक्रतो स नो ओरास्व सुवीर्यम् स्वामिदाह्यो नरोऽपि एप्यन्वज्रिन्भोर्णयः स इन्द्रस्तोमवाहसामिह श्रुध्युपस्वसरमागहि मत्वा आसु शिप्रहरिभस्तदे ए महेत्रे आभू ओषन्ति वेतसाः तव श्रवांस्युपमान्युख्या आसुतेऽस्मिन्द्रगिरुपणः श्रायन्त इव सौर्यम् विश्वेदिन्द्रस्य वसो निजाते जनमान ओजसा प्रतिभागन्नदे अनर्शरातिम् वसुतामुपस्तु हि भद्रा इन्द्रस्य रातयाः सो अस्य विधतो विभतो नरो ओषधिमनोदानाय चोदयन् त्वमिन्द्र प्रतोर्तिष्वभि विश्वा असि स्पृधाः अशस्तिहा जनिता विश्वतोरसि त्वन्दोर्यतरुष्यतः अनुते शुष्मन्तुरयन्तमीयतोः क्षोणेशिशुन्न मातराः विश्वा आस्ते स्पृथश्नथयन्तमन्यवे एवृत्रञ्जलिन्द्रतोर्वसि इत ऊती वो आशुञ्जेत आरम्भेता आरम् रथेत ममतोर्तम् तु ग्र्यावृथम् निष्कर्ता रमनिष्कृतम् सहस्कृतम् शतमोदिम् शतक्रतुम् समानमिन्द्रमवसेह वामहे वसपानम् वसूजुवम् अयन्त एतन्वा पुरस्ताद्विश्वे ए देवा अभिमायन्ति पश्चात् यदा मह्यन्दीधरो भागमिन्द्रादिन्मया आकृ आणि दधा आमिते मधुनो भक्षमग्रे एहितस्ते एभागः सुतो अस्तु सोमाः असश्चत्वन्दक्षिणतः सखा मेधा आवृत्राणि जङ्कना बभूरि प्रसु स्तोमम् भरत वा जयन्त इन्द्राय सत्यम् यदि नेन्द्रो अस्तीतिरेम उत्त आहकै इन्द्रदर्शकमभिष्टवाम अयमस्मि जरितः पश्य मेह विश्वा अजातान्यभ्यस्मि मह्ना ऋतस्य मा प्रदिशो वर्धयन् चादर्दिरो भुवनादर्दरेमि आयन्मा आ वेना अरुहन् ऋतस्यङ्गेकमासे एनम् हर्यतस्य पृष्ठे मनश्चिन्मे हृद आप्रत्यवोचलचिक्रदन् छिषु मन्दः सखा विश्वेत्ताते सभनेषु प्रवाच्यायाचकर्थमखवन्निन्द्र सुन्दते पारा आवतम् यत्पुरुसम् मनोजपाजमान आयसेमतरत्पुरम् दिवम् सुपर्णो गर्तायसोमम् वज्रिण आभरत समुद्रे अंतश्यत शयत बुद्धा वज्रो अभिवृतः भरन्त्यस्मै संयतः पुरः प्रस्रवणा निराष्ट्रे हे यतः श्रोर्जन् दु दुहेपयाम् सैक्वस्वि तस्याः परमम् जगाम देवीम् वाचमजनयन्तदेवास्ताम् विश्वरूपाः पशवो वदन्ति सानो मन्द्रे शवोर्जन् दुहा आनाधेनुर्वाकस्मानुपसुस्फुतयितु सखे एविष्णोपितरम् विक्रमस्पर्द्यौर्देहि लोकम् वज्राय विष्कफे ना आववृत्रम् ऋणचा आपसिन्धोनिन्द्रस्य यन्तु प्रसवे विसृष्टाः रथगित्था समर्त्यश्च शवे देवता आतये यो नूनम् मित्रावरुणा बभिष्टय आचक्रे हव्यदा आतये वरुषिष्ठक्षत्रा उरुचक्षसा नरारारा आनादीर्घश्रुत्तमा तापाहुता न दंसना आरथर्यतः साकम् रश्मिभिः प्रयो वाहम्मित्रा वरुणातिरोदूतो अद्रवत् अयः शीर्षामदे रघु नयः संप्रच्छेन पुनर्हवेतपेन संवादायनमते तस्मान् अद्य समृतेरुरुरुष्यतम् बाहुभ्यान्न उरुष्यतम् परमित्रायप्रार्यम्णे स चथ्यमृता वसो वरोध्या अम्बरुणे चन्यम्बचस्तोत्रम् राजसुगाजत अरुणञ्जेऽन्यम् वस्वेकम् पुत्रम् दिशृणाम् ते धामा अन्यवृता मृत्या आमलब्धा अभिचक्षते आमेवताम् स्युज्यताद्युमत्तमानिकर्ता उभाया तन्ना सत्या सजोषसा प्रतिहव्यानि पीतयेम रक्षसम्भवामहे युवाभ्या अम्बाजिनीवसु चीन्होत्रा अम्प्रतिरन्ता आवितन्नराकृणाना जमदग्निना आनो अज्नन्ति विस्पृशम् वाजो ओजाहि सुमन्मभिः अन्तः पवित्र उपरिश्रेणानोऽयम् शुक्रो अयामिते द्वेत्यद्धर्यः पथिभेरधिष्ठैः प्रति हव्यानि वीतये अथा आ नियुत्त उभयस्य नः पि पशुजिंसो बण्महाम् असि सूर्यबलादित्यमहाम् असि महस्ते ए सतो महिमापनस्य तेधादे एव महाम् असि वट्सूर्यश्रवसा महाम् असि सत्रादे एव महाम् असि मह्ना देवानामसुर्यः पुरोहितो विभुज्योतिरदाभ्यम् इयने चर्किणे चित्रे वप्रत्यदर्श्या यत्या अन्तर्दशसु बाहुषु प्रजाः तिस्रो अत्यायमे युर्न्या अन्याहकमभितो विमिश्रे बृहद्धतस्थौ भुवनेष्वन्तः पवमानो हरितः विवेश माता रुद्राणान्नुहितावसो रां स्वसादित्यानामृतस्य नाभिः प्रणवोचिकितुषे जना आयमागामना आगामदितिम् अधिष्ठ वचोऽपि तम् वाचमुदीरयम् विश्वा आगेभिरुपतिष्ठमानाम् देवीम् देवेभ्यः पर्येजुषीङ्गा मा वृत्तवर्त्यो देवे दभ्रचेताः त्वमग्ने बृहद्भजो तथा आसि देवदाशुषे कभिर्गृहपतिर्युवा स न ईडा नया सह देवा अग्ने दुपस्युवा चिकिद्विभावः त्वया आहस्यद्युजाभयम् चोधिष्ठे न यविष्ठ्य अभिष्मो वाजसादये पूर्वभ्रभुवच्छुजिमप्नवानवदाहुवे अग्निम् समुद्र वा आससम् हुबे वा तस्वनम् कविम् वर्जन्यक्रम् आसवं स वितुर्यथा भगस्येव भुजिम्भुवे अग्निम् समुद्रवाससम् अग्निम् वो अपृथन्तमध्वराणाम्बुरोतमम् अच्छानत्रे सहस्वते अय्यथा आ न आभुवत्पष्टा आ रूपेऽवदक्ष्या अस्य क्रत्वा यशस्वतः अयम् विश्वा अभिश्रियो दिर्देवेषु पत्यते आवाजैरुपनोऽगमत् विश्वे एषा मिहस्तु हि होत्रणायशस्तमम् अग्नियज्ञेषु पूर्व्यम् क्षीरम्बापकशोजिषञ्ज्येष्ठो योदमेष्व गीताय दीर्घश्रुत्तमः तमर्वम् तन्नसा न सिङ्घृणेः विप्रशुष्मिणम् विनित्रम् नयातयज्जनम् जा उभत्वा जामयोगि रोदेशतीर्ह विशृताः जोरणीके अस्थिरन् यस्य त्रिधात्ववृतम् बर्हिस्तस्थावसन्दिनम् आपश्चिन्निरदापदम् पदम् देवस्य मेळुषो नादृष्टाभिरोतिभिः भद्रासूर्य इवोपदृक् अग्ने कृतस्य धीतिभिस्ते पानोदे एव शोचिषा आदेवान्वक्षि तन्त्वा आजनन्तमातरः कविन्देवासो अङ्गिरः अव्यवाहममत्यम् प्रचेतसन्ता कवेग्ने दूतम् वरेण्यम् अव्यवाहम् निषे दिरे न हि मे अस्त्य ज्ञानस्वतिर्वनन्वति अथ एतादृग्भरामिते यदग्ने कानि कानि किला दध्वसि तादृशस्वयविष्ठ्या यदत्युपजिह्विकायद्वम्रो अतिसर्पते सर्वम् तदस्तु ते घृतम् अग्निमिन्धा नो मनसाधियम् स चेतमर्त्याः अग्निमेधे विवस्पभे अदर्शिकासु वित्तमो यस्मिन्न्या दधुः उपोषु जातमार्यस्य वर्धनमग्निर्नक्षन्तनो गिराः प्रदैवो दासो अग्निर्देवाङ्गच्छानवज्मनाः अनुमातरम् पृथिवीम् विवावृते तस्थौ नाकस्य सानवि यस्माद्रेजन्तकृष्टयश्चलकृत्या निकृण्वतः सहस्रसा मेधसा तापि पद्मनाग्निम्भेभिः सपर्यत प्रयम् राजेनिनीश सिमर्थोजस्तेवसोदाशत् स वीरम् धत्ते अग्न उक्थशंसिदन्त्मना सहस्रपोषिणम् स दृढे चिदभिरृणात् निवाचमर्वता स धत्ते अक्षितिश्रवाः ते सदा आपुरोवसो विश्वा आ वामानि यो विश्वादयते वसुहोता आमन्द्रो जनाना मधोर्न पात्रा प्रथमान्यस्मै प्रस्तोमायन्त्यग्न अश्वन्न गीर्भिरथ्यम् सुदानवोमनुमृज्यन्ते एयपाः उभेतोकेतनयेदस्मविष्पते परशिराधो मघोनाम् प्रमम् हिष्ठाय गायत कृता बृहते शुक्रशोचिषे उपस्तुतासो अग्नये आवंसते मघवा वीरभद्यशः समिद्धोऽद्युन्याहुतः पुनो अस्य सुमतिर्नदे यस्यच्छावाजेभिरागमद् श्रेष्ठमुप्रियाणां स्तुत्या आसा वा तिथिम् अग्निम् रथा आनायमम् उदितायो निजितावेति तावस्वा यज्ञयोपवर्तते दुष्टरायस्य प्रवणेनोर्मयो धिया वाजंसिषा आसतः मानो ओरुणी तावतिजर्वसुरग्निः पुरप्रशस्त एषः यः स्वोदास्तद्वरः मोते रिषन्ये अच्छो त्रिभिर्वसोऽग्ने के भिष्टिदेवैः केरिश्चिद्धित्वा मेट्टे दूत्या आय रातहो यस्वद्भरः आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये सोभर्या भवभूतेश करुणाकर हरशम्भो महादेव विश्वेशामरवल्लभ शिवशङ्करसर्वात्मन्नीलकण्ठनमोऽस्तु ते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय सर्वाय महादेवाय ते नमः उग्राजोग्राकनाशाय भीमाय भयहारिणे ईशानाय नमस्तुभ्यम् पशूनाम् पतये नमः दश सप्त च नामानि मण्डलान्तेषु यः पठेत् शिवस्य पदम् गत्वा शिवलोके महीयते नास्ति मृत्युभयम् तस्य पापरोगादि किञ्चन यज्ञेशार्च्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णोऋषिकेशवासुदेव नमोऽस्तुते कृष्णाय गोपिनाथाय चक्रिणे मुदवैरिणे रुक्मिणीशाय गोपाय गोविन्दाय नमो नमः साक्षान्मूलप्रमाणाय विष्णोरमित तेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः हरिहर शिवशङ्कर वामनवासुदेव विरामस्तावतु विश्वेश्वराय नमः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ स्वारिष्ठयापतिष्ठया पवस्व सोमधारय इन्द्राय पातवे सुतः रक्षोहा विश्वचर्षणिरभियो निमयो हतम् दृणासधस्थमासदत् वरिबोधातमो भवमम् हिष्ठोरत्र हन्तमः पर्षिराधो मघोनाम् अभ्यर्षमहानाम् देवानाम् वेतिमन्दसा अभिवाचमुतश्रवाः त्वामच्छाचरामसितदिदर्थम् दिवे दिवे इन्दो आशसाः पुनाति ते परिस्रुतम् सोमम् सूर्यस्य सुहिरा वारेण शश्वतातना तमेमन्वे समर्य आ गृभ्रन्ति स्वसा आरः पार्ये दिवे तमेम् हिन्वन्त्यग्रुबोधमन्ति बापुरन्द्रतिम् त्रिधातु वारणम् मधो अभिममध्या तेन वशिशुम् सोममिन्द्राय पातवे तस्येदिन्द्रो मदेष्वा विश्वा आवृत्राणि जिघ्नते शूरो अमघा च मंहते पवस्पदे पवेलति पवित्रम् सोमरं ह्या इन्द्रमिन्द्रो वृषापिष आवच्य स्वमहिप्सरो वृषेन्दोर्जुम्दवत्तमः आयोनिन्धर्णसि सदः अधुकतप्रियम् अधुदारा सुतस्य वेधसाः अपो अपोपशिष्टसुक्रतोः महान्तन्लापो अर्षन्ति सिन्धवः यद्गोभिर्वासयिष्यसे समुद्रो अप्सुमामृते विष्टम्भो धरुणो दिवः सोमः पवित्रे अस्मयोः अधिक्रतद्वृशाहरिर्महान्मित्रो न दर्शतः संसूर्येण रोचते गिरस्त इन्दसामनुम्रज्यन्ते अपश्युवाः याभिर्मदा आय शुम्भसे तन् त्वामदा आय कृष्पय उलोक कृत्तुमी महे तव प्रशस्तयो महेः अस्मभ्यमिन्दमिन्द्रयोर्मः पवस्वधारया इव गोषा इन्दो आत्मा यज्ञस्य पूर्वः एष देवो अमर्त्यः पर्णमेरिवदीयते अभि द्रोणान्यासदम् एष देवो विपाकृतो दिह्वरांसि धावति पवमानो अदाभ्यः एष देवोऽपन्युभिः पवमानरतायुभिः हरिर्वाजाय मृज्यते एष विश्वा निवार्याशु पवमानस्य शासति एष देवो रथर्यति पवमानो दशस्यति आविष्कृणोति वग्वनुम् एष विप्रैरभिष्णुतोपो देवो विदाहते द्रत्नानिदाशुषे एषदिवम् विधावति तिरोरजांसि धारया पवमानः कनिक्रदत् एषदिवम् जासरत् तिरोरजांस्य स्मृतः पवमानस्वग्धरः एष प्रत्नेन जन्मना देवो देवेभ्यः हरिः पवित्रे अर्षति एष उस्य पुरव्रतो जज्ञानो जनयन्दिषाः धारया पवते सुतः स नाचसो मजेषु च पवमा नमहिश्रवाः अथा आ नोमस्य संस्कृति स नाज्योतिः स अथा आ नोमस्य स नादक्षमुत क्रतुमपसोमृधोदिः अथा आ नोवस्य सस्कृति पवे एतारः पुनेतनसोममिन्द्रायपातवे अथा अभ्यर्षस्वायुधसो रजिम् अथा आ नो अभ्या हर्षान्युतो रजिम् अथा आ नोपस्यैरवेधम्भवमानविधर्मणि अथा आ नोपस्य संस्कृति प्रजिन्नश्चित्रमश्विनमिन्दो अविश्वायुमाभर अथा आ नोपस्य संस्कृते समिद्धो विश्वदस्पदिः पवमानो विराजति प्रीणन् वृषाकनिकृदत् तनोरपात् पवमानः शृङ्गे शिशानोऽर्षति अन्तरिक्षेण रारजत् ईळेन्यः पवमानो रयिर्विराजति द्युमान मधोर्धाराभिरोजसा बर्हिः प्राचीनमोजसा पवमानस्तृणन् हरेः देवेषु देव ईयते उदाते उदातयेर्दिहते बृहद्वारो देवैर्हिरण्ययेः पवमानेन सुष्ठुताः सुशिल्पे बृहती महे पवमानो वृषण्यति न तोषा सा तो न दर्शते उभा देवा न चक्षसा होता रादैव्याहुवे पवमान इन्द्रो वृषाः भारते पवमानस्य सरस्वतीडामही इमन्नो यज्ञमागमन् तिस्रो देवेः सुपेशसः त्वष्टारमग्रजाङ्गोपाम् पुरो यावानमाहुवे इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः वनस्पतिम् पवमानमध्वासमङ्य सहस्रवल्संहरितम् भ्राजमानम् हिरण्यजम् विश्वे देवा स्वाहाकृतिम् पवमानस्यागता वायुर्बृहस्पतिः सूर्योऽलिन्द्रः सजोषः मन्द्रया आसो मधारया वृषापवस्व देवयोः अव्यो वारेश्वस्मयोः अभित्यम् मध्यम् मदमिन्दविन्द्र इति अभिवाच मुदश्रवाः अनुद्रप्सा स इन्दव आहो न प्रवतासरन् पुरान्द्रमाशत यमत्यमिव वादिनम् दशा वने क्रीडन्तमत्यमिम् तङ्गोभिर्मृषणम्रसंवदाय देववीतये सुतम्भराय संसृजा देवो देवायथा रजेन्द्राय भवते सुतः यदस्य पीपयत् आत्मा यज्ञस्य रंह्या सुश्वानः पवते सुतः रत्नम् निपाति काव्यम् एव पुनान गुहा अधिष्ठपीतरे गुहाजिद्दधिशेखिराः असृग्रमिन्दवः पथा धर्मन्द्रतस्य सुश्रियाः बिलाना अस्य यो जनम् प्रधारामध्वो अग्रियो महीरपो विगाहते हविर्हविष्वन्द्याः प्रयुजो वाचो अग्रियो विषावचक्रदध्वने सद्माभि सत्यो अध्वरः पर्यत्काव्याकविर्नम्णावसानो अर्षति स्वर्वाचे सिशासते पवमानोऽभिस्पृतो विशो राजे एव सीदते यदे ए मृण्न्ति वेधसाः अव्यो वा रे परिप्रियोः जर्वने सुसीदति रेभोपनुष्यते मती स वाजुमिन्द्रमश्विना साकम् मदे न गच्छति रणायो अस्य धर्मभिः आमित्रावरुणाभगम् मध्वः विदाना अस्य शक्मभिः अस्मभ्यम् रोदसे रयिम् मध्वोवाजस्य शवो वसो निसञ्जितम् एते सो मा अभिप्रियमिन्द्रस्य काममक्षरम् न वर्धन्तो अस्य वीर्यम् पुराणासश्च मोषतो गच्छन्तो वाजुमश्विना तेनो धान्तु सुवीर्यम् इन्द्रस्य सोमराधसे पुराणो हार्दिचोदय ऋतस्य यो निमासतम् व्रजन्ति पादशक्षिपो ओरिन्वन्ति सप्तधीतयाः अनुविप्रा आमादिशुः देवेभ्य स्वा मदा आयकम् सुजानमतिमेष्याः सङ्गोभिर्वासयामसि पुराणः कलशेष्वा वस्त्राण्यरुषो हरीः परिगव्या अन्यव्यत मघो न जहि विश्वा अपद्विषाः इन्दोऽसखायमामिष वृष्टिन्दिवः परिस्रवद्युम्नम् पृथिम् या अधि सहो नः आहा। दृक्षसन्त्वा वयमिन्द्रपीतम् स्वर्विदम् भक्ष्ये बहिः प्रजामिषम् परिप्रियादिवः कविर्वयांसि नप्त्योरहितः सुवानो याति कविक्रतुः प्रप्रक्षयाय पन्यसेजनाय जुष्टो अद्रुहे जा, ससो स सोदुर्मातराशुचिर्जातो जाते अरोचयत महान्महे रतावृथा स सप्तधीतिभिहितो नद्योः अजिन्मदद्रुहाः या एकमक्षि वा ता अभिसन्तमस्तृतम् महेजुवानमा दधुः इन्दुमिन्द्रतवो रते अभिवह्निरमर्त्यः त्रिविर्देवीर तर्पयत् अवाकल्पे एषु नः पुमस्तमाम् श्रीसोमयोध्या तानि पुनानजङ्घनः नूनं यसेन पीयसे सूक्ताय साधया पथः प्रत्नवद्रोचया रुचाः परमानमहि श्रोगामश्वम् सना आमेधांसना स्वाहा प्रस्वानासो रथा इवार्वन्तो न श्रवस्य वा सोमा आशो सो राये अक्रमुः हिन्वानासो रथा इव दधन् विरेगभस्त्योः भरासहकारिणामिव राजा नो न प्रशस्तिभिः सोमा आशोकोऽभिरञ्जते सो यज्ञो न सप्त धातृभिः परिशुपानास इन्द्रोमदाय बर्हणा आगिरा सुदा अर्षन्ति धारया आपानासो विवस्मतो जनन्त उषसो भगम् सोरा अण्म् विलम् वदे अपद्वारा मतीनाम् रत्नारुण्कारवाः कृष्णो हरस आयवाः होता स आस पदमेकस्यभिप्रतः नाभानाभिन्नाददे ना चक्षुश्चित्सूर्ये स चा कवेरपत्यपादुहे अभिप्रियादिवस्पदमद्धर्युभिर्गुहाहितम् सूरः पश्यति चक्षसा उपास्मै गायता नरः देवम् देवाय देवयो स नः पवस्वशङ्गवे सञ्जनाय शमर्वते शम्भ्राजन्नौषधीभ्यः बभ्रवेणुस्वतमसे रुडाय दि विस्पृशे सोमाय गाथमर्चत हस्तच्युतेऽभिरद्रिभिः सुतम् सोमम् पुनीतन मधा बाधावता मधो नमसेरुपशीलब्धे इन्दुमिन्द्रे तथातन अमित्रहावितर्षणिः पवस्प सोमशङ्गवे देवेभ्यो अनुकामकृत इन्द्राय सोमपात मे मदाय परिषिच्यसे मनश्चिन्मनसस्पतीः पवमानसुवीर्यम् रयिंसो मरिहिनः इन्दमिन्द्रेण नो युजा सोमा आसग्रमिन्दवः सुता रतस्य साधने इन्द्रायमधुमत्तमाः अभिविप्रा अनूषतगावो वत्सन्न मातराः इन्द्रम् सोमस्य पीतदे वदत्युत्क्षे एति साधने सिन्धो ओर्माभि पश्चित् सोमो गौरे अरिश्रितः दिवो नाभा आविचक्षणो व्यो वारे महीयते सोमो यः यः सोमः कलशेष्वा अन्तः पवित्रामिन्दुः परिशते प्रवाचमिन्दुरिष्यति समुद्रस्याधिविष्टपि जिन्वन्कोशम् वधुश्चुतम् नित्यस्तोत्रो वनस्पतिर्ध्येना मन्दः स वर्दुखाः हिन्वानो मानुषायुगा आपवमानदालयिम् सहस्रवर्चसम् अस्ने इन्दो स्वाभुवम् इति षष्ठाष्टके सप्तमोऽध्यायः